मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् फिफ्टीन् बुद्धावतारवर्णनम् श्रीगणेशाय नमः सनकाद्या ऊचुः श्रुत्वा त्वद्वदनाम्भोजात्कथामृतरूपिणीं जन्ममृत्युहरां पूर्णाम् सर्वसौख्यकरीं शिव गाणेशानिं न तृप्ता वै वयं वदमहा मदे पुनर्गणपदे सौम्यां कथामवतारजां परां श्रीशिव उवाच कलिप्रवृत्तिकामार्थं ब्रह्मविष्णुं ययौ पुरा तुष्टावतं रमानाथं जगादस्वप्रयोजनं ब्रह्मोवाच कलिं पापस्वरूपं च सृजामि स्म जनार्दन नदं जनाः प्रहर्षेण मानयिष्यन्ति सर्वदा द्वापरान्धे कलिप्रोक्तस्तस्य कालोऽधुना गतः तं प्रवर्तय देवेशत्वं स्मृदः सर्वपालकः ब्रह्मणो वचनं श्रुत्वा केशवस्तमुवाचः पापरूपं महाखोरं नाभि नाभिनन्दाम्यहं कलिं धर्मपालनभावार्थमवतारं करोम्यहं धर्मनाशकरं पापम् कलिं नैवाभिनन्दये ततस्तं केशवं देवं जगाद चतुरानः बुद्धावतारभृत्वं वै कथितोऽसि जनार्दन अवतारचरित्रं ते कलिप्रवर्तकं प्रभो पश्य पौराणि किं गाधां ं त्वदाश्रिदाम् ब्रह्मणो वचनं श्रुत्वा निःश्वस्य तमधो ब्रवीद विष्णुस्तधेदि दुःखेन ब्रह्मा स्वभवनं ययौ तद भगवांस्तत्र तदाप तप उत्तमं षडक्षरेण मन्त्रेण हृदि गजाननम् दशवर्षैर्गणाध्यक्षः प्रसन्नो वरदो भवद तमाययौ महाभक्तं भक्तेशो भक्तवत्सलः तमागदं समालोक्य तुष्टा वा पूज्य विघ्नपं हेरम्पोपनिषत्तत्वैर्भक्रिया नम्रात्मकन्धरः तदो गजाननस्तुष्ठस्तं जगादकृपान्विदः वरान् वृणुमहाभाग यांस्ते चित्ते स्थिरान् परान् गणेशवचनं श्रुत्वा विष्णुस्तं पुनरब्रवीद कृताञ्जलिप्रणम्यैव गणेशं सर्वसिद्धिदं श्रीविष्णुरुवाच भक्तिं देहि त्वदीयां मे सर्वसिद्धिप्रदायिनीं बुद्धोऽहं धर्मलोपार्थं भविष्यामि कलौ युगे धर्म संस्थापनं नित्यं करोमि गणनायक धर्मलोपार्थमेवाहं त्वया बुद्धप्रकीर्तितः ये तदेव विरुद्धं मे प्राप्तं धुण्डे दयानिधे तदर्थं शरणं नाथ यादोऽहं ते पदस्य च अदो मां रक्षविघ्नेश विरुद्धाचरणात्प्रभो विनायकस्त्वमेको वै कुरु धर्मपालकम् श्रीगणेश उवाच मां भयम कुरु विष्णव धर्मयुक्तों भविष्य कलिप्रवर्तने दोषो न दे क्वा महात्म मै चुगा द्रजिता क्रम वरदानेन मे सर्वे स्वकालयुधा बभुः कलिस्तेषु महापापी मया संस्थापितो भवद मदाज्ञापालको भूत्वा भव बुद्धस्त्वमादराद अहङ्कारं विभो त्यक्त्वा कर्ताकमिति समर्प्य मयि कर्माणि कुरु कर्म यथा तथं चित्ते चिन्तामणिं पश्य तदिच्छावशकं जगद ब्रह्म नानाविधं तद्वत् तत्र कस्त्वं विचारय वेदशास्त्रमयी वाणी गणेशेन विनिर्मिता तस्या आज्ञां प्रपाल्यैव वर्धितव्यं तु जन्तुभिः प्रीतो गणेश्वरस्तेन दास्यति स्वपदं परं सर्वेषां नात्र सन्देहो जीवानामेषभाविनां कलिखेलकरसोऽपि गणेशो धूम्रवर्णकः चकार बुद्धरूपस्थं स्वयं विष्णुं तदर्थदः एवं धार्य महाविष्णो मदाज्ञावशगो भव कर्म कृत्वा ह्यधर्मस्थं मय्यर्प्य सुखमेष्यसि एवमुक्त्वार्दधेसौ गणेशो ब्रह्मनायकः विष्णुर्हर्षसमायुक्तो बुद्धो भूच्च महर्षयः कृदं तेन महच्छास्त्रम् बौद्धम् मोहप्रदायकम् कलिदोषप्रवृद्ध्यर्थं सेविभ्यो नरकप्रदम् सनकाद्यावूचुः कीदृशम् बौद्धशास्त्रम् तद्वद सर्वज्ञते नमः ज्ञात्वा मोहविहीनास्तज्जना भवन्ति नित्यदा श्रीशिव उवाच शृणुध्वमुनयः सर्वे बौद्धं नरकदायकं वर्णाश्रमस्थितेभ्यस्तद्विहीनेभ्यः सुखप्रदं स्वयं बुद्धिपदिः कृतिष्ठति देहिनां ब्रह्मणामीश्वराणां च पञ्चचित्तप्रचालकः स विनायक इत्युक्तः नायकेन विहीनत्वात् स्वेच्छाचारी सनातनः तदिच्छया स्वयं ब्रह्मनानरूप धरं बभौ नाना, नाना माया बलाश्रितं तत्र पापादिकं नास्ति न ना पुष्पादिकमञ्जसा ज्ञानाज्ञानसमानैश्च तुल्यं वै नात्रसंशयः संशयः न ना स्वर्गप्राप्तितं नारकं कथम् भ्रान्तिदम् सर्वमुत्सृज्य ब्रह्मभूतो नरो भवेद हृदि बुद्धिप्रदातारम् सर्वेषां खेलकारकम् तम् ज्ञात्वा मोहहीनो वै भविष्यति सदा नरः चित्तस्य सुखदं सर्वं प्रकुर्यान्नात्र संशयः न वर्णाश्रमधर्मैः देखो शरीरं पीडयेत् कदा देहो भोगार्थमानन्दात् रचितस्तेन ब्रह्मणा नानायत्नै शरीरं तत् पोषणीयम् निरन्तरं शरीरे कष्टमापन्ने बुद्धिखेदयुधा भवेद तस्थ बुद्धिबद्धिः साक्षात् तथा भवेद अहं ब्रह्मेदि सन्धार्य सदा स्वेच्छापरो भवेद पापपुण्यविहीनः स देहपोषणकारकः नानापदार्थभावेषु मनस्तस्य प्रवर्तते भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमं जीव हिंसामयं कर्म कर्तव्यं न कदाचन तृणाङ्गुराधिकं तद्वन्न चेत्तव्यं देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः न स्वाहा न स्वदाद्यं दानभोज्यादिकं कदा सर्वे समानरूपाश्च कथं तत्रद्विजादिकं द्विजादिकं यत्र चित्तस्य सम्प्रीतिर्जायते मुनिसत्तमाः तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः एवं नानामधैर्युक्तं शास्त्रम् बौद्धं महर्षयः ज्ञातव्यं कलिदोषैश्च युक्तं नरकदं भवेद वर्णाश्रमस्तकं धर्मं त्यक्त्वा स्वेच्छापरो भवेद अहिंसा परमो भावी ह्येदद् बौद्धरहस्य सर्वान् सम्मोह्य विश्वात्मा बुद्ध कलिप्रवर्तकः संस्थितः कैकडे देशे गुप्तरूपेण मानदाः गणेशध्यानसंयुक्तः समर्प्य ढुण्ढये कृतं कर्मयोगयुतः सोऽपि तथापि पूजयाहीनो बभूवे बुद्धरूपधृक विष्णोर्वेदविरुद्धस्तमार्ग संसर्जनात् किल कलिप्रान्ते दुराचारा बौद्धमायाविमोहिताः वर्णाश्रमपरिभ्रष्टा भविष्यन्ति गृहे गृहे लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः अधर्मेण जितः सदो सतो पोषणसंयुगः ततो बुद्धस्वयं ढुण्ढिं परं ध्यात्वा तपोन्वितः प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ततो गणेश्वरसाक्षात्प्रसन्नोऽवतरिष्यति धूम्रवर्ण इति ज्ञातो धर्मं संस्थापयिष्यति हृष्टो बुद्धश्च तं नत्वा पूज्य विशेषतः अन्तर्धानं स्वयं कृत्वा स्वमहिं निश्चितोऽभवद इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावदः पठनाश्रवणसद्यो मोहघ्नं कामदं भवेद ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्म महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बुद्धावतार नाम पञ्चदशोऽध्यायः ॐ